हरि ओम् श्री सीतारामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे चत्वारिंशे स्वर्गः सुग्रीव रावणयोर्मूल्लयुद्धम् ततो रामःलाग्रम् योजन द्वयमण्डलम् उपारोह स सुग्रीवो हरियूथै समन्वितः स्थित्वा मुहूर्तम् तत्रैव दिशो दर्श विलोकयन् त्रिकूट शिखरे रम्ये निर्मिताम् विश्वकर्मणा दर्श लङ्काम् शून्यस्ताम् रम्य कानन शोभिताम् तस्य गोपुर शृङ्गस्थम् राक्षसेन्द्रम् श्वेत चामरपर्यन्तम् विजयच्छत्र शोभितम् रक्तचन्दन रत्नाभरणभूषितम् नीलजीमुत सङ्काशम् हेम सञ्चादिताम्बरम् ऐरावत विषाणाग्रहे उत्कृष्ट किण वक्षसम् शचरोहितरागेण संवितम् रक्तवाससा सन्ध्यातपेन सञ्छन्नम् मेघराशिम् इवाम्बरे पश्यताम् वानरेन्द्राणाम् घवस्यापि पश्यतः दर्शनाद् राक्षसेन्द्रस्य सुग्रीव सहसोत्थितः क्रोधवेगेन संयुक्तः सत्त्वेन च बलेन च अचलाग्रात् अथोत्थाय स्वप्लवे गोपुरस्थले स्थित्वा महूर्तम् सम्प्रेक्ष्य निर्भयेन्नान्तरात्मनः दृणीकृत्य च तद्रक्ष सुब्रवीत् परुषं वचः लोकनाथः स्वरामस्य सखा दासोऽस्मि राक्षस न मया मोक्षसेद्य त्वम् पार्थिवेन्द्रस्य तेजसा इत्युक्त्वा सहसोत्पत्य उप्लोहे तस्य चोपरि आकृष्य मुकुटम् चित्रम् पातय बभाषे तम् निशाचर सुग्रीवस्वम् परोक्षं मे हीनग्रीवो भविष्यति इत्युक्तोत्थाय तम् क्षिप्रम् बाहुभ्यामाक्षिपत्तले कन्दुवस्थ समुत्थाय बाहुभ्यामाक्षिपध्वरी परस्परम् फेदविदीग्धगात्रो परस्परम् शोणितरक्तदेहो परस्परम् शिष्टनिरुद्धचेष्टौ परस्परम् चाल्मलिकिञ्चु काव्युवौ प्रहरे च तलप्रहारे अरत्निघाते च कराग्रिघाते। तौ चक्रतुर्युद्धमसैह्यरूपम् महाबलो राक्षसवानरेन्द्रौ कृत्वा नियुद्धम् भुजमुग्रवेगौ कारणं चिरं गोपुरवेदि मध्ये उत्क्षिप्य चोत्क्षिप्य विनम्य देहो पार्यक्रमात् गोपुरवेदि लग्नौ अन्योन्यमापीड्य विलग्न देहो तोपेत तु सालनिखात मध्ये उत्प्रेत तुर्भूमितलं स्पृशन्तो स्थित्वा मुहूर्तं तभिनिश्वसन्तो आलिङ्ग्य चालिङ्ग्य च भावौ योक्त्रै संयोजया मा चतुराहवेतौ सौरम्भशिक्षाय बलसम्प्रयुक्तौ सुचेरतौ सम्प्रति सुचेरतो शार्दूलसिंहो एव जातधन्ष्टौ गजेन्द्र पोतौव सम्प्रयुक्तौ संवृत्यतं वेद चतौ कराभ्याम् तोपेतर्वै युगपधरायम् उद्यम्य चान्योन्यक्षिपन्तौ सञ्चक्रमाते बहु युद्धमार्गे व्यायामशिक्षा बलसम्प्रयुक्तौ क्रमन्नतौ जङ्मतुराशुवीरौ बाहुत्तमैवारुणवारुणाभै निवारयन्तो परिवारणाभौ चिरेण कालेन भृशम् प्रयुद्धौ सञ्चेरतुर्मण्डलमार्गमाशु तौ परस्परमासाद्य यत्सावन्योन्यसूदने मार्जारौ इव भक्ष्यासे वत स्थाते मुहुर्मुहुर् मण्डलानि विचित्राणि स्थानानि विविधानि गोमूत्रकाणि चित्राणि गतप्रत्यागतानि च तिरस्थिन गतान्येव तथा वक्र गतानि च परिमोक्षम् प्रहाराणाम् वर्जनम् परिधावनम् अभिद्रवणमपावम् अवस्थानम् च विग्रहम् परावृत्तम् अपावृत्तम् अपद्रुतम् उपन्यस्तम् अपन्यस्तम् युद्धमार्ग विशारदो तो विचेर तु अन्योन्यम् वानरेन्द्रः च रावणः एतस्मिन्नन्तरे रक्षो मायाबलम् मनाथात्मनः आरब्धुमुपसम्पेरे ज्ञात्वा तं वानराधिपः उत्पपातः तदाकाशम् जितकाशीजितक्लमः रावणस्थित एवात्र हरिराजेन वञ्चितः अथ हरिवरनाथ प्राप्तसङ्ग्रामकीर्ति निशिचरपतिमाजो योजयित्वा श्रमेण गगनमतिविशालम् लङ्घयित्वार्कसूनो हरिगणबलमध्ये रामपार्श्वम् जगाम इति सवितृसोनो तत्र तत् कर्म कृत्वा पवनङ्गतिरनेकम् प्राविश सम्प्रवृष्ट रघुवरन् नृपसोनोर्वर्धयन् युद्धम् सर्व मृगगण मुख्यै पूज्यमानो हरिन्ध इत्याश्ये श्रीमद् रामायणे वाल्मीकि अधिकारी युद्धकाण्डे च सर्गे श्रीसीतारामचन्द्रारवणमस्तु